श्रीमद्भागवत् महापुराणं नवमि स्कन्ध असद्वितीयोऽध्यायः प्रिसध्न आदिमनुके पाञ्चपुत्रो कावञ्च श्रीशुकुवाच एवं गतेथ सुद्युम्ने मनुर्वैव स्वतः सुते पुत्रकामस्तपस्ते पेयमुनायां शतं शमाह ततो यजन्मनुर्देवम् अपत्यार्थं हरिं प्रभुम् इक्ष्वाकुपूर्वजान् पुत्रान् लेभेष्वसदृशान् दश प्रसद्रस्तु मनोपुत्रो गोपालो गुरुणा पालयामा सगायत्तो गायत्तो रात्र्यां वीरासनव्रतः एकदा प्राविसद्गोष्ठं सार्दूलो निशुवर्षति सयानागावोत्थाय भीतास्ता बभ्रभूर्मुर्वजे एकां जग्राहबलवान् सा चुक्रोशभयातुरां तस्यास्तत्कृङ्क्रदिन्क्रन्दितं श्रुत्वा प्रषध्रोभि ससारः खड्गमादाय तरसा प्रतिनोडुगणेषी अजानन् हनन् बभ्रोः शिरशार्दूलशङ्कया व्याघ्रोऽपि विक्रवं श्रवणो निस्त्री साग्राहतस्ततः निश्चक्राम्भृशम्भीतो रक्तं पथि समुसृजन् मन्यमानो हतं अद्राक्षे स्वहस्तां स्वहतां बभ्रूं व्यष्टुं व्युष्टायां निश्च दुःखितः तं शशापकुलाचार्यकृतागसमकामतः न क्षत्रबन्धु शुद्रस्त्वं कर्मणा भविता मुलाम् एवं गुरुणा प्रत्यगृह्णात् कृताञ्जलिः अधार्यव्रतं वीर ऊर्धुरेता मुनिप्रियं वासुदेवे भगवति सर्वात्मनि परे मले एकान्तित्वं गतो भक्त्या सर्वभूतसृहेसमः विमुक्तसङ्गशान्तात्मा संयताक्षोपरिग्रह यदीक्षयोपन्नेन कल्पयन् वृत्तिमात्मनः आत्मन्यात्मानमाधाय ज्ञानतृप्तशमाहितः विचार महीमेतां जडान्धबधिराकृतिः एवं वृतो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितं तेनोपयुक्तकरणो ब्रह्म प्रापरं मुनिः कविकनीयान् विषयेषु निःस्विहो विसृज्यराज्यं श निवेश्यचित्ते पुरुषं सरोचसंविवेशकेशों रवया परं गतः करुषान् मानवादाशान् कारुषा क्षत्रजातयः उत्तरापथगोक्तारो ब्रह्मण्याधर्मवश्चराः दृष्टाद्धाषमभूच्छत्रं ब्रह्मभुजं गतं छितौ मृगस्य वंश सुमतिर्भूत ज्योतिस्ततो वशुः वसो प्रतीकस्तत्पुत्र ओघवानोघवत्पितां कन्या च भगवती नाम सुदर्शन् उवाहतां चित्रसेनो नरिष्यन्तां दृक्षस्तस्य सुतो भवन् सर्समील्फ्वास्ततः कुर्च इन्द्रसेनस्तुतस्सुतः वेतिहोत्र त्विन्दसेनान्तस्य सत्यस्रवा अभूत् उरुस्रवासुतस्तस्य देवदत्तस्ततोऽभवत् ततोऽग्निवेशो भगवानग्नि स्वयम् अभूत्सुतः कलीन इति विख्यातो जातो कर्ण्यो महानुषे ततो ब्रह्मकुलं जातम् आग्निवेशायनं नृपम् धरिश्यान्तान्वयः प्रोक्तो दिष्टवंशमतशिनु नाभागो दुष्टपुत्रोऽन्यकर्मणा वैश्यतां गतः भरन्दन सुतस्तस्य वस्य प्रीतिर्भरन्दनात् दस्य प्रीते सुत प्रांसुतस्तु तं प्रभृतिं विदुः खनित्र प्रमते तस्माञ्चाक्षुषोऽथ विविंशतिः विविंसति सुतो रम्भखनिनेत्रोऽसि धार्मिकः करन्धमो महाराज तस्यासीदात्मजो नृप तस्याभिक्षे सुतो यस्य मरुतश्चक्रवर्त्यभूत् संवर्तो याजीयद्यं वै महायोग्यं गिरसुतः मरुतस्य यथा यज्ञो न तथान्यस्य कश्चन सर्वं हिरण्मयं त्वासीद्यत्किञ्चिच्चाशिशोभनम् अमाद्यदिन्द्रसोमेन दक्षिणाभिर्जुजातयः मरुतः परिवेष्टारो विश्वे देवासभासदः मरुतस्य तमपुत्रस्थस्यासीद्राज्यवर्धनः शोधृते तस्तुतो यज्ञे सौधृते यो नरसुतः तत्सुतः बंधुमान् वेगमास्ततः बन्धुत्वस्या भवद्यस्य चीनबिन्दुर्महीपतिः तम्भेदे लम्बुषा देवी भजनीयगुणानयं वराप्सरायतः पुत्राः कन्या चेडबिडाभवत् तस्यामुत्पादयामास विश्रवाधनदंशतम् प्रादाय विद्यां परमामृषियोगेश्वरार्पितुः विशालशून्यबन्धश्च धूम्रकेतुश्च तत्सुताः विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीं हेमचन्द्र सुतस्तस्य धूम्राक्षस्तस्य चात्मजः तत्पुत्रा संयमादासीकृशाश्वसः देवजः कृशाश्वा सोमदत्तो भूज्योष्वमेधैर्यडस्पतिम् इष्ट्वा परसुमाप्राग्रं गतिं योगेश्वराश्रितः सोमदत्ते सुमते तत्सुतो जनमे जयः एते वैशालभूपालात्रिमिन्दो यशोधराः इति श्रीमद्भागवते महापुराणे पारहंसां सयितायाम् नम स्कन्धे द्वितीयोऽध्यायः